हरि ओम् न झुञ्जानः प्रथमम् नमस्तत्वाय सविता धिया अद्रे ज्योतिर्नि चाज्यमिथ्रिया अद्याभरत युक्तेन मनसाद्वयाम् देवस्य सवितुः सवि स्वर्गाय शक्त्या युक्त्वाय सविता देवान् सृजतो धिया दिवम् ब्रज्योतिः करिक्षतः सविता प्रसुवातितान् युञ्जते नन उत युञ्जते धीमवित्रा वित्तस्य बृहतुम्युपश्चिताम् विहोत्रादेव विनाम्धेक इन्म हिन्देवस्य सवितुः परिष्कृतिवाम् न पूर्वम् नमो भलोक एतुपथ्येन सूरे श्रेण्वन्तु विश्वे अमृतस्य पुत्र आये धामानि दिव्यानि तस्थून् यस्य प्रजाणमन्वन्य इद्यर्देवा देवस्य महिमानमोजसाम् यः पार्थिवान् वि ममे स एतशोरजादिषि देवः सवितामत्पुनाम् देव सविता प्रसुव यज्ञम् प्रसुव यज्ञ पतुम् भगाय दिव्योगन् न वः हिमाणेवा स्वाहम् देवस्य त्वा सितुः प्रसवेश्विर्बाहुव्याम्बम् खाददे गावेण क्षन्दसां स्वृथिव्याः समस्तादनु वतान्दसां विरस्वत अभिरसि आगतेन छन्दसां हिरस्वत हस्त आदाय सरिता अग्निर्जाज्य अद्यावरोद आनुष्ठुरेव छन्दसां विरस्वत प्रतुरतम् पाचिन्नाद्रमुरिष्टामनुसम्भतम् दिवितो न परममनम् परिक्षेत गो नाभीन्द्रिथिव्यामभियो निजितज्ञासम्यमस्मि व्रन्वसु अग्निन्दरम् तस्मन् योगे योगे तवस्तरम् पाचेवाजे हवान् सुखाय इन्द्रमूस चतुर्वह्म्ये जनपराभन्न स्वणपत्यम् मयो भूरे पूर्वान्तर् क्षन्ती समस्ति भव्यूतिरभयानि कृणवन्ति सञ्जासम् पृथिव्याः शरस्तादगमिन्दुर्यक्षमाङ्गिलस्वराभरागमिन् गुर्य क्षमाङ्गिलस्वदक्षे अन्यद् निरुखसामग्रम्यहानि प्रथमो जातवेदानुसूरजस्य पुरुत्रा च रश्मीन्यावाजिचि आत आगतवाजवानग्नीसानद्विदूते अगमिग्नेसरस्तेनानि चक्षुकानि चिकीक्र आक्रम्य वाजु न च त्वन् भूया वृत्पानो बृह्णीजतः खने न तम् भयन् देवत्वम् पृष्ठाम् समुद्रो समुद्रोनी विख्याय चक्षुकात्मनवितिष्ठकृतन्यताम् उद्ग्राममहते सम्भृदा यास्मादास्थानद्रह्वाजिन्न वयस्यामसुमतम् पृथिव्या अग्निन्दनन्द उपस्थे अस्याम् उदक्रम्य ग्रन्थ उदार्वाः कः सुलोकज्ञतः कमेण सुप्रतीकमलकुस्महुरुहाणा अधिरागमुत्तमम् आत्वाजिगर्मि मनसाधृतेन प्रतिक्षियन्तम् भुवनानि विश्वाम् कृतिरश्च वदसा गृहन्तम् निष्ठनन्नभस मृशानम् आ विश्वतः प्रञ्चम् जिगन्म रक्षसा नज्जुषेत मृज्यस्य वर्ण अगमिन्नाभिमृषेतन्वाच पुराणः त्वरि वाच पतिः क्रम्य ह्यन्नकरन्त दयद्रत्नाम् दाशुकिम् त्वरित्वाग्ने पुराम् वयम् प्रज्ञेसस्य भीमम् जगद्वर्णम् जिरे दिवे, दिवे हन्तारम्भङ्गुरागताम् त्वमवने स्वाशुसुक्षाणस्त्वमगवस्त्वामश्वाणस्वरी त्वाम् वनेन्दस्वामो खलन्तस्वान् व्रेणान्द्रपतेजालसेषु ची देवसत्वा सविः प्रसवेष्बाहुयाम्बूष्णम् हस्ताब्दाम् पृथिव्याः सदस्तादनुक्षमाङ्ग्योतिह्नान्दम् त्वाग्ने सुप्रतीगमजस्रेण भानुनादि यद्धताम् शिवाम् प्रजाज्ञो सन्तम्खमाना समुद्रमधितः पीमानम् वृधमानम् वा च भुवर दिभू मात्रया वरिन्द्र प्रदम् शर्मचस्थुव ब्रह्मचस्थुवच्छिद्रे बहुले इभुम् यजस्वतीक्षम् सम्भसादाब् सर्वदा समीची उसात्मना अग्नि श्रमित पूयख्योऽसि अवतर्वात्मा प्रतमनिरमन्तनवने त्वानवने पुरातव्यसर्वानिरमन्थत भूर्गुणविश्वसर्वाहृतः तमु त्वा लभ्यम् ऋषिः पुत्र ईजे अवर्वणः वृत्रहाणाम् पुरान्धरान् कमुत्लापाठ्यवृकासनिजेदसिहन्त धनम् जयग्नीम् सीत होतः स्वपुलोके चिकित्वांसाधनाज्लग्नि सुप्रतसूनम् देवान्यर्धेवान् भविता जजाताहो त्रिफलनिर्विदानस्ते कोदीदिवाम् असरत्सुदृक्षाम् तदपि सम्रत प्रमत्र वसिष्ठाः सहस्रम् नरः शुचिशिवो अदम् सद्यो यस्वशिषोच स्मेवनः विधुम् ले अर्घम् दे प्रजस्तशतम् अपोरे दीर्पय मधुमती लक्ष्माः प्रजाभ्याम् तासामास्तानात् जिहतामे सदयः सुविपुलान् तञ्जेवायुरुन्नातरशदातु उत्थानाया हृदय इयन्तस्ताम् यो देवानाम् च प्राणेन तसमीलेन बसदस्तु दिव्यम् सुजातो ज्योतिषासहसर्णवरूथ मास भासो विश्वरूपकुसन्नयस्वद्विदामस विदुतिष्ठ सर्वराभानो देव्याधियाम् ीरागने जायुशिः ऊर्व ऊपुण ऊतमे दृष्टाले गोनसदिताम् ऊर्ध्वसी गर्वागर्वमहे सजातो गर्भो असिरोदस्यो रदने चारुत ओपधि चित्रः शिशुः गरितमन्त्रनादृद्यो अधिकमित शिरोभवीर्वण्ड आश्रमधर्वन् प्रदुभव सुखवस्वने पुरीक्षवाहर शिरोभव प्रजाध्यूमाम् जीर्दस्फल्यादाशोचीर्माण्डरि क्षन्म अग्नस्पतीम् प्रन्तु वाजीवधन्नामध्रासवः पत्माम् भरम् दुर्यन्मापाद्यायुखः पुराम् रेखादनेन्द्रणाम्भरम् मताम् न भग्नी समुद्रियम् अवन आयानुगीतम् एतद्गीवत्तमेतद्गीवत्तमदनीन्द्रिख्यमर स्वभरानः ओघः प्रतिनोदपदानमेतद्वीशि मनन्दनभ्रत्र जुगुमाः यस्य विश्वा अनिरा अमीरानि कीदन्नो अपुर्मतीयम् ृतमु भवती सुवित्पला अयम् पौवरभारतीयः प्रपत्नी सरस्थमा सदतम् विपादसा प्रदुनाशो शुचानो दादसविको रक्षसो अमीला सुशर्मणो मृहता कर्मणि सुरवस्थप्रणीतम् आपो विष्टामो गुणस्तान पुनर्जीवदातनम् महोरराजचक्षस यो वा शिवमोरसस्य राजयतीरमा उशतीव मातराम् अरण्यमामो निःशक्षणा न जिन्वत आपूजन यथाचमः मित्रः सद्दीजपि जिम्भूज्योतिषा सह सुजातम् यातवेद समलक्ष्मा नत्वा सद्दीषयानुप्रजाध्यान् वृज्राः सकीर्जपिधीन्द्रय ज्योतिः समीरै ते काम्बानिरनुसर उक्ष्पुरे देवे कुरोचते सत्पुल्लम्ब सुदीर्द्रयगीरम् कर्म्यामृतम् हस्ताद्वामृत्वा सीतालीरेण पिताम् सीतालीषुतप्रदासु कुवीरास्मम् पुषाम् सादुजमपितौ मयुङ्काम्ब दातु हस्तयोः उपाङ्क्रणतु शक्ताबाहुद्यामदि तृथीयाम् वाता पुत्रम् यतोपस्थो सागलिम् विभरतु वरदपाम् भवस्य शिरोऽसि वसवस्वात्रेण तु वायत्रेण छन्दताङ्गिरस्वधृणासु पृथिव्यश्रीदारय मैत्रजागिराोकाण्डम् तत्तद्मी सुन्दरलग्नि सुजातान्यजमानाम रुद्रास्वाकर्णनम् रुत्रयस्तु मे नक्षन्दसाङ्गध्रुवाश्चन्दर् क्षमसिधारण मैत्रजाग्रिरा योकाण्डम् तत्तग्नि सुन्दरजग्नी सजातान्यजमाना द्वित्यास्त्वा कर्णनम् तुजागतम् नक्षन्दसाङ्गीरस्वध्रुवासज्यन्द्रसिधारण मैत्रजाग्रान्स्तोकान् नौपतज्ञजातान्यजमान यद्विषयत्वादेवाभूष्मानराह केन्द्रन्तान् सुरेण छन्द्रीरस्वधुवाति दृशोऽसिनारय मैत्रजाग्रान् सोखम् नौकतज्ञो शूयनजज्ञम् सुजातान्यजमानाय परित्यङ्गास्मा स्वय दृष्टे दिनम् मृभ्रातु कृत्वा यसामहीमुखाम् ब्रह्म लीजो निवदननि पुत्रेभ्यः प्रागच्छदधिश्वपना वसवस्वाधूपलम् दुवावित्रेण च्छताम् रुद्रास्वाधूपनम् तित्रयष्टिवे नताम् चित्रास्वादूपयन्तु जावतैव छन्दतां यश्वेष्वादेव वयुष्वानरादूपयन्तानुस्तुरेव छन्दतान्द्रस्वीन्द्रस्त्वत् भूपयतु मरुणस्वादूपयतु विष्मस्वादूपयतु सन्तुष्टा देवी विश्वभियामती अनिरस्वत्खमट देवानां त्वात् तत्नीय देवीय विश्वभिर्यामतीयादस्ते अनुरस्वद्दनपि विकणास्त्वा देवीय विश्वभिमतीयाः षडस्ते आङ्ग्लस्वधुन्दताम् जी वरुक्रीष्माद् वीरविष्मी जावतीः पृथिव्याः सदस्ते अङ्गलस्य क्षपदन्ति जे गुणाश्चिव्यात् षडे अङ्ग्लस्य पचन्ति जे जनस्ताखिन्नपत्रात् वीरविष्मधिः जामतीः पृथिव्याः सदस्ते अङ्गलस्य पचन्ति द्वे पितरस्य चरताणीरतो गोदैवस्य सानसु भिन्नङ्गितरसुद्र माम् देवस्यातन्त्वपदसुतानि स्वीयुः सुबाहृतशत्याम् अव्यथमानामिदुङ्गामाशादिश आप्रणौ उत्थाय बृहती भवतिष्ठद्धृन्मा त्वम् यत्रैताम् त ऊकाम् परिदन्यस्वाच्छन्दन्तु वा मित्रैर्णक्षन्दसां रस्वद्वित्रास्वाच्छण्डन् द्वित्रयस्तुवत् नक्षन्दसां रस्वदा विचस्माच्छन्दन्तु जानतम् लक्षं रसां रस्वदीश्व त्वत् भीदाम् परिष्माधरा अच्छन्दम् जानस्तुवे नक्षन्दसां हातुञ्जि नवनीन्द्रम् जग्दुस्वाहा मनोदानवनीन्द्रम् जग्दुस्वाहा चित्रम् ज्ञाननवनीन्द्रम् जग्दुष् स्वाहा बाहु विनवीम् प्रविजग्दुस्वाहा प्रजापतमी मन वि स्वाहा वैश्वामराय स्वाहा विश्वो देवस्य नेति मनतु विनीत सख्याम् विश्वयु कुद्धिद्युम्नाञ्जीलमुख्ये स्वाहा मासु उत्थामासु भिस्मुद्वीरस्वसि अभिनिष्ठेदम् कर्क्ष्यता निष्णीयस्वदेवी आसुमायास्वद्याकृतासि इष्टम् देवीत्य इदमस्ति अयमरिष्टात्वमिति शति अस्मिन्नगन्धः सृतिरा सुत्नो एताह्मर्यात्सपुत्रो अद्भुता परस्याधिसम्पतो वरान् अध्याकरन् पितराः कुस्मिताम् अलम् परमस्याः पुरामतो इव स्वमि पुर्यः पुरु योगमेत्यन्तरामृदान् जगमीकामिकाङ्किदाति दारूरिपदमसि सर्वान्तदस्तुते वृतम् लज्जीमला जष्ट्यान् जगत्युपजिकामद्वाम्रो अपि सर्पति सर्वान्तदस्तुते वृतम् लज्जीमदुला जिष्ट्यान् हर हरप्रदामम् वदन्तोष्वामेव तिष्ठति वासमसनम् राजस्पोकेन सन्धामधन्तोकी बाते प्रतिदेशान्खामौ नाभापृथिव्याः सन्धानि अग्नम् राजस्पोकाय दहति हवामहि ग्राह्मदन्द्रियरिताङ्गयतानमीन्द्रिपदासुसासैन् जाः सैना अनि त्वली राज्ञादिनीरिगणा उत जय स्त्रीरानी चतस्करास्ताम् स्ते अग्नितराम्यास्मे ददृष्ट्राभ्याम्मभिन्नीयान्नियस्तस्कराम् उत हरिद्रादुस्तैनान्नवस्ताम् त्वरुकालसुख आदितान्न जय जी गुमलिन्नवस्यैना सस्तस्कराग्मणि जै दक्षयत्वदानदत्तांस्तैदधानिरम्भयोः जो अस्मभ्यमोरातीयाक्षणद्वे सह बिन्दाद्यो अस्मान्विष्णात्य भवन्तम् स्मरसा कुरु सद्विमषितान्य ब्रह्म सद्मषिताङ्गीजलम् सद्विवशिताम् शत्रास्यामस्मि पुरोहिता बिङ्काम्बा अतिरमुद्वर्चो अतो बलम् क्षिणोनि ब्रह्मणानि त्राणि नयामि स्वाम् अहम् अन्नपतेन्यस्वनो जनानि यस्वशुण्डा प्रप्रदातारन्दानि च उवर्जान्यो धीर्द्वीपानि च तु उपानि इति एकादशः